त्वगुं सोम पितृखनं वाक्यं त्वगुं सोम पितृभिः संविधानोऽनुद्यावापृथिवी आदतन्थ तस्मै दयिन्दो हविषाविधेमवयगृश्यामपतयो रयीणाम् अग्निष्वात्ताः पितर एह गच्छत सद सद सदद सुप्रणीतयः अता हविगुं शिप् प्रयतानि बर्हिष्यधा रयिगुं सर्ववीरन् दधातन बर्हिषदः पितर आव्या चक्रमा हाव्याचक्रमाजुषध्वं तआगदा आगदावसा शन्दमे नाधास्मभ्यगुं शय्यो ररपो दधादघनं त्वगुं सोम सोम त्वन्दगुं सोम पितृभिः पितृभिसोम त्वन्दगम् सोम पेदृभिः सोम पेदृभ्ये पेदृभे सोम सोम सोम सोम पेदृभे सौ वेदा नः पेदृभे सौ सौ वेदानोन्वनु संविधानप्येदृभ्यप्येदृभ्ये संवेदा नो नु पेदृभ्येदे पेदृभिः संवेदानोन्वनु संविधानः संविधानोऽनुद्या वा पृथिवी द्या अनु संविधान संविदानोद्या वृथिवी संविधान संविदान नहा पृथिवी दृथिवी अन्वनुद्याद्यादिवी आ द्यावा पृथिवी आद्यावा पृथिवी द्यावा पृथिवी आदतन्ध तदन्धा द्यावा पृथिवी द्यावा पृथिवी द्यावा पृथिवी यदि द्यावा आ तादन्था दथन्थ तदन्धेदि तदन्थ तस्मै ते ते तस्मै तस्मै त इन्दो इन्दो ते तस्मै तस्मै त इन्दो त इन्दो इन्दो ते द इन्दो अविशा हविषेन्दो ते हविषा इन्दो हविषा हविषेन्दो इन्दो हविषा विधेमविधेम हविषेन्दो इन्दो हविषा विधेम इन्दो इदि इन्दो हविषा विधेमविधे महविषा हविषा विधेम वयवयविधेम हविषा हविषा विधेम वयं विधेम वयवयविधेमविधेम वयगृश्यामस्याम वयविधेमविधेम वयगृश्याम वयघ्याम श्याम वयवयघ्याम पदयः पदयस्याम वयवयघृस्याम रयेणां पदयस्यामस्याम पदयो रयीणां पदयो रयीणा गं रयीणां पदयः पदयो रयीणां रयीणामिधि रयीणाम् अग्निष्वात्ताः पिदर पिदरो अग्निस्वात्ता अग्निष्वात्ताः पिदर आ पिदर आ अग्निस्वाता इत्याग्नि स्वाताहा पिदर आपिदरपिदर एह पिदरपिदर एह ये हे गच्छद गच्छते हेह गच्छद इह गच्छद गच्छतेहेह गच्छद सद सद सद सदो गच्छते हे ह गच्छद सद गच्छद सद सद सदो गच्छद गच्छद सद सद सदद सदद सद गच्छद गच्छद सद सद सदत सद सद सदद सदद सद सद सद सद सुप्रणी तय सुप्रणी तय सदद सद सद सद सद सदद सुप्रणी तयः सद सद इधि सदः सदः सदद सुप्राणीतयः सुप्राणीतयः सदद सदद सुप्राणीतयः सुप्राणीतय इति सुप्रणीतयः अत्ता हवे गंषि हवि गिष्यता ता हवि गंषिप्रयतानि प्रयदानि हवि गिष्यता हवि गंक्षिप्रयतानि हवि गंक्षिप्रयतानि प्रयदानि हवि गंषि हवि गंषिप्रयतानि बर्हिषि बर्हिषिप्रयतानि हवि गंषि हवि गंषि प्रयतानि बर्हिषि प्रयतानि बर्हिषि बर्हिषि प्रयतानि प्रयतानि बर्हिष्यधाध बर्हिषिप्रयतानि प्रयतानि बरिहिष्यध प्रयतानिति प्रयतानि बर्हिष्यधा द बर्हिषि बर्हिष्यधारयिगं रयि मदबर्हिषि बर्हिष्यधा रयिम् आधारयिगं रयि मदाधारयिगं सर्ववीरगं सर्ववीरगं रयिमधा धारयिगम् सर्ववीरम् रयिगं सर्ववीरगं सर्ववीरगं रयिगं रयिगं सर्ववीरन्दधादन दधादन सर्ववीरगं रयिगुं रयिगं सर्ववीरन्दधादन सर्ववीरन्धन दधादन सर्ववीरगम् सर्ववीरन्दधातन सर्ववीरमिति सर्ववीरं दधातनेदि दधातन बर्हिषदः पिदर पिदरो बर्हिषदो बर्हिषदः पिदर ओद्योदी पिदरो बर्हिषदो बर्हिषद पिदर ऊती बर्हिषद यदि बर्हि पिदर ओ त्यो दीपिदर पिदर उत्यर्वा गर्व गो गोदी पिदर पिदर उत्यर्वा क ओत्यर्वा गर्व गोत्यो ऊ उत्तर्वा गीमे मार्वा गोत्यो ऊत्यर्वा गीमा अर्वा गीमे मार्वा गर्वा गीमा वो ये मार्वा गर्व गेमा वहा ये मा वो वा ये मे मा वो हव्याः वो हव्याहव्यावो वो हव्या चक्रमचक्रम हव्यावो वो हव्या चक्रम हव्याचक्रमचक्रम हव्याहव्या चक्र माजुषध्वं जुषध्वं चक्रम हव्याहव्या चक्र माजुषध्वम् चकृम जुषध्वं जुषध्व चकृम चकृमा जुषध्वं जुषध्वमिति जुषध्व त आ तेद आगद आगदा वसा वसा गदा वसा गदा वसा वसा ग गदगदा वसा चन्दमेन छन्दमेना वसा गद गदा वसा चन्दमेन अवसा षन्दमेन छन्दमेना वसा वसा षंदमेना धाध षन्दमेना वसा वसा चन्दमेना धा छन्दमेनाधादषन्दमेन षन्दमेनाधास्मभ्यमस्मभ्यमध षन्दमेन छन्दमेनाधास्मभ्यम् छन्दमेनेदिशं तमेन अधास्मभ्यमस्मभ्यमधास्मभ्यगं सगुं शमस्मभ्यमधास्मभ्यगं शम् अस्मभ्यगं शगुं शमस्मभ्यमस्मभ्यगं शयोर्योशमस्मभ्यमस्मभ्यगं शयोः अस्मभ्यमित्यस्म भ्यं शय्योर्योश्यगुं शय्योररपो अरपो योऽशगुं शय्योरपः योरपो अरपो योर्योरपो दधा द दधा दारपो योर्योरपो दधात अरपो दधा दधा द रपो अरपो दधाद दधा तेदि दधात